श्रीहरे नमः अत द्विचत्वारिंशोऽध्यायः श्रीशुक उवाच अत व्रजन् राजपतेन माधव स्त्रियं गृहीताङ्गविलेपभाजनां विलोक्य कुब्जां युवतीं वराननां पप्रच्छयान्तीं प्रहसन्रसप्रदः का त्वं वरोर्वेदुहानुलेपनं कस्याङ्गने वा कथयस्व साधुनः देह्यावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते न चिराद्भविष्यति शैरन्त्यरुवाच दास्यस्म्यहं सुन्दरकंसम्मथ त्रिवक्रनामाह्यनुलेपकर्मणि मद्भावितं भोजपते अतिप्रियं विना युवां कोऽन्यतमस्तदर्हति रूपपेशलमाधुर्य हसितालापवीक्षितैः दर्शितात्मादतो शान्ध्रम् उपयोरनुलेपनं तदस्तावङ्गरागेण स्ववर्णेतरसोभिना सम्प्राप्तपरभागेन सुशाभातेऽनुरञ्चितौ प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननां ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलं पद्म्यामाक्रम्य प्रभते त्वय्यङ्कुल्युत्थानपाणिना प्रगृह्यशुबुघेध्यात्मा मुदनीनमदच्छुतः साधदर्जुसमानाङ्गी बृहश्रोणिपद्योधरा मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमं ततो रूपगुणौर्धार्श्यं पन्नाप्राहकेशवम् उत्तरीयान्तमाक्रश्य स्यमन्ती जातहृचया ये हि वीरगृहं यामो न त्वां त्यक्तुमिहोत्सहे त्वयोन्मतितचित्तायाः प्रसीदः पुरुषर्षभा एवं स्त्रियायाचमान कृष्णो रामस्य पश्यतः मुखं वीक्षानुघानां च प्रहशंस्तामुवाचः येष्यामि गृहं शुभ्रोः पुंसाम् आदिविहर्सनम् साधिधार्थो गृहाणां न पान्तानां त्वं परायणं विसृज्यमाद्व्याभाण्यातां व्रजन्मार्गे वणिपतये नानोपायनताम्भूल शगन्तैषाग्रजोर्चितः दद्दर्शन स्मरक्षोभात् आत्मानं नाविदन् स्त्रियः विस्रस्तवासः वलयालेख्यमूर्तयः ततः पौरान् पृश् पृच्छमानो धनुषस्थानमच्युतः तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रम् इवाद्भुतं पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्दिमत् वार्यमाणो नृभिकृष्ण प्रहस्य धनुराधदे करेण सज्जं त कृत्वा निमिषेन पश्यतां नृणां विकृष्य प्रपभं च मध्यतो यतेषु दण्डं धनुषोपज्यमानस्य शब्दः कं रोदसीदिशः पूरयामाशयं श्रुत्वा कंसत्रासम् उपागमत् तद्रक्षिणश्चानुचर कुपिता आततायिनः गृहीतु काम आव्रोर्गृह्यतां भद्यतामिति अततान्धुरभिभ्रायान् विलोक्य बलकेशवौ क्रुद्धौ धन्वन आधाय सकले दांश्च जघ्नतुः बलं चकं सप्रहितं हत्वा शालामुखात्ततः निष्क्रम्यचेरतुर्हृष्टो निरीक्षपुरसम्भतः वीर्यं निशाम्यपुरवासिनः तेजः प्रागल्प्यरूपं च मेनिरेविबुधोत्तमो तयोर्विचरतो स्वैर मदिद्योस्तम् उपेयिवान् कृष्णरामौ वृतौ गोपै पुरा चकटमीयतु गोभ्यो मुकुन्तविगमे विरहातुराय आसासताशितरुतामधुर्बुर्यभूवन् सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हि त्वेतरान्नुभजतश्च कमेयनं श्रीः अवनिग्धायुगौ नौ भुक्त्वा क्षीरोपसेचनम् ऊषतुस्तां शुकं रात्रिं ज्ञात्वा कंसचिकीर्षितं कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च वदं निशम्य गोविन्द रामविक्रीडितं परं दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः बहुन्यचो भयथा मृत्योर्धौत्यकराणि च अदर्शनं स्वशिरस प्रतिरूपे सत्यपि असत्यपि द्वितीये द्वैरूप्यं ज्योतिषां तथा चित्रप्रतीतिश्चायां प्राणाघोषानुपश्रुतिः स्वर्णप्रतीतिर्वृक्षेषो स्वपदानाम् अधर्शनं स्वप्ने प्रेतपरिष्वङ्घ करयानं विषाधनं यायान्नध माल्येकस्तैलाव्यक्तो दिगम्परः अन्यानि चेत्तभूतानि स्वप्नजागरितानि च पश्यन्मरणसन्त्रस्तो निद्रां लेभेन चिन्तय व्युष्टायां निशिकौरव्य सूर्ये साभ्यत्समुत्थिते कारायामासवैकंसो मल्लक्रीडामकोत्सवम् आनर्चुः पुरुषारङ्गं जग्निरे मञ्जाश्चालङ्कृता श्रद्भे पादकाचैलतोरणैः तेषु पौराजान ब्रह्मक्षत्रपुरोगमाः यतोपजोषं विविशो राजानश्चकृतासनाः कंसपरिवृतो मात्यै राजमं च उपाविशत् मण्डलेश्वरमध्यस्थो हृदयेन विधूयत तौरस मलतालोत्तरषु च मवलता चानूरो मुष्टिकक मुष्टिफूट सलस्तोसल एव च त उपस्थानं वल्गुवाद्यप्रकर्षिताः नन्दगोपाधयो भोजराजसुमाहुताः निवेदितोपायनास्ते एकस्मिन् मञ्च आसि इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विं चत्वारिशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय